गणेशपुराणं क्रीडाखण्डम् अध्यायम् हण्ड्रड् एण्ड् फोर्टि वरेण्य उवाच संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यदे त्वया उभयोर्निश्चितत्वेकं श्रेयो यद्वदमे प्रभो श्रीगजानन उवाच क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने तयोर्मध्ये क्रियायोगस्त्याघातस्य विशिष्यते द्वन्द्वदुःखसखो द्वेष्टा योनकाङ्क्षदि किञ्चन मुच्यते बन्धनात् सद्यो नित्यं संन्यासवान् सुखं वदन्ति भिन्नफलकौ कर्मणस्त्यागसङ्ग्रहौ मूढाल्पज्ञास्तयोरेकं संयुजितविचक्षणः यदेव प्राप्यदेत्यागात्तदेव योगदफलम् सङ्ग्रहं कर्मणो योगं यो विन्ददि स विन्ददि केवलं कर्मणां न्यासं सन्न्यासं न विदुर्बुधाः कुर्वन्ननिच्छया कर्मयोगी ब्रह्मैव जायते निर्मलो यदचित्तात्मा जितः स्वो योगतत्परः आत्मानं सर्वभूतस्थं पश्यन् कुर्वन्न लिप्यते तत्त्वविद्योगयुक्तात्मा करोमीति न मन्यते एकादशानीन्द्रियाणि कुर्वन्ति कर्म संख्यया तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति न लिप्यदे पुण्यपापैर्भानुभानुर्यथार्थगः कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा त्यक्त्वा शां कर्म कुर्वन्ति योगज्ञाश्वित्तशुद्धये योगहीनो नरकर्मफलेहया करोत्यलम् बध्यते कर्म बीजैष ततो दुःखं समश्नुदे मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेद न कुर्वन् कारयन्वापि नन्दन् श्वभ्रे सुपत्तने न क्रिया न च कर्त्वं कस्यचित्सृज्यते मया न क्रिया बीजसम्पर्कस्य क्रिया तत् क्रियतेखिलं कस्यचित् पुण्यपापानि न स्पृशामि विवेकेनात्मनो ज्ञानं येषां नाशिदमात्मना तेषां विकाशमायादिज्ञानमादित्यवत्परं मन्निष्ठा मध्योऽत्यन्तमच्चित्ता मयि तत्पराः अपुनर्भवमायान्ति विज्ञाननाशितैन सह ज्ञानविज्ञानसम्पन्नं द्विजे गविगजादिषु समेक्षणा महात्मानः पण्डिताश्वपचेषु नि वश्य स्वर्गो जगत्तेषां जीवन्मुक्तास्समेक्षणाः यदो दोषं ब्रह्मसमं समं तस्मात्तैस्तद्वशीकृतम् प्रियाप्रिये प्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न ब्रह्माश्रिता असम्मूढा ब्रह्मज्ञा समबुद्धयः वरेण्य उवाच किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु भगवन्कृपया तन्मे वद विशारदा विशारद गणेश उवाच आनन्दमश्नुसक्तस्वात्मा रामो निजात्मनि अविनाश्यं सुखं तद्धि न सुखं विषयादिषु विषयोद्धानि सौख्यानि दुःखानां तानि हेतवः उत्पत्तिनाशयुक्तानि तत्रासक्रो न तत्त्वविद कारणे सति कामस्य क्रोधस्य सहदे चयः तौ जेतुं वर्ष्मविरहात्सुखं शिरमश्नुदे अन्धर्निष्टोऽन्धप्रकाशोऽन्धःसुखोऽन्धो रतिर्लभेद असन्धिक् ोक्षयं ब्रह्म सर्वभूतहितार्थकृत जेतारषडरीणां ये शमिनो दमिनस्तथा तेषां समं ततो ब्रह्मस्वात्मज्ञानां विभात्यहो आसनेषु समासीनस्त्यक्वेमान्विषयान्बहिः संस्तभ्यभृकुडीमास्ते प्राणायामपरायणः प्राणायामं तु संरोधं प्राणापानसमुद्भवं वदन्ति मुनयस्तं च भूदं भूतं विपश्चितः प्रमाणं भेददो विधि लघुमध्यममुत्तमम् दशभिद्वयन्धिकैर्वर्ह्णैः प्राणायामो लघुस्मृतः चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृदः षत्रिं षड्लघुवर्णोय उत्तमः सोऽभिधीयते सिंहं शार्दूलकं वापि मत्तेभं नयन्ति प्राणि नस्तवत्प्राणापानौ सुसाधयेत् पीडयन्ति मृगांस्तेन लोकान्वश्यं गदा नृप दहत्येनस्तथा वायुः संस्तब्धो न च तत्तनुं यथा यथा नर कश्चित् सोपानावलिमाक्रमेद तथा तथा वशीकुर्यात् प्राणापानौ हि योगवित पूरकं कुम्भकं चैव रेचकं च चा तदोभ्यसेद अतीतानागदज्ञानी तदस्य जगतीतले प्राणायामैर्द्वादशभिरुत्तमैर्धारणामदा योगस्तु धारणे द्वे स्याद्योगीशस्त सदाभ्यसेत एवं ह्यः कुरुदे राजं स्त्रिकालज्ञः स जायते अनायासेन तस्य स्याद्वश्यं लोकत्रयं नृप ब्रह्मरूपं जगत् सर्वं पश्यति स्वान्तरात्मनि ेवं योगश्च संन्याससमानफलदायिनौ जन्तूनां हितकर्तारं कर्मणां फलदायिनीं मां ज्ञात्वा मुक्तिमाप्नोदित्रैलोक्यस्येश्वरं विभुम् ॐ तत्सदिति श्रीमद्गणेश गीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे कर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः ओ